क्षमा प्रार्थनाम् अपराधसहस्राणि गृहन्ते अहर्निशं मया दासोऽयम् इति मां मत्वा क्षमस्व परमेश्वरे आवाहनं न जानामि न जानामि विसर्जनं पूजां चैव न जानामि क्षम्यतां परमेश्वरे मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वरे यत्पूजितं मया देवे परिपूर्णं तदस्तु मे अपराधसतम् कृत्वा जगदम्बेति चोच्चरे यां गतिं संवाप्नोते न तां ब्रह्मादयशुरा सापराधोऽस्मि शरणम् प्राप्तस्त्वां जगदम्बिके इदानीम् अनुकं प्रोऽहं यशेक्ष्यति तथा कुरु अज्ञानाग्स्मृतेभ्रान्तां यन्नूनम् अधिकं कृतं तत्सर्वं क्षम्यतां देवे प्रसीदः परमेश्वरी कामेश्वरी जगन्नाथः सच्चिदानन्दविग्रहे गृहाणार्चामि मां प्रत्या प्रसीद परमेश्वरे गुयात गुह्यगोप्री त्वं गृहाण स्मस्मितं जपं सिद्धिर्भवति मे देवे त्वत्प्रसादा सुरेश्वरे ॐ श्री दुर्गार्पणमस्तु